श्रीमद्भागवत् महापुराणं द्वादशस्कन्ध अथ पञ्चमोऽध्यायः श्रीशुदेवजी का अन्तिमुपदेश श्रीशोकुवाच अत्रानुर्वण्यते भिक्षं विश्वात्मा भगवान् हरिः यस्य प्रसादजो ब्रह्मा रुद्रक्रोधसमुद्भवः त्वं तु राजन्मरिष्येति पशुबुद्धेमिमां जहि न जात प्राग्भूतोऽद्य देहवत्त्वं न लप्स्यसी न भविष्यसि भूत्वा त्वं पुत्रपौत्रादिरूपवान् बीजाङ्कुर्वदं दे यथा नलः स्वप्ने यथा शिरच्छेदं पञ्चत्वाद्यात्मनः स्वयं यस्मात्पश्यति देहस्य तत आत्मा घटे भिन्ने यथाकाश आकाशशा यथा पुरा एवं देहे मृते जीवो ब्रह्म सम्पद्यते पुनः मनसि यति वै देहान् गुणान् कर्माणि चात्मनः तन्मनः श्रुते माया ततो जीवस्य संस्कृतिः स्नेहाधेष्ठानवर्त्यग्निसंयोगो यावदीयते ततो दीपस्य दीपस्त्वं मे एवं देहकृतो भव रजसत्त्वं तमोवृत्या जायतेऽ विनश्यते न तत्रात्मा स्वयं ज्योतिर् यो व्यक्ता व्यक्तयोपरः आकाशैव चाधारो द्रोणन्तोपमस्ततः एवमात्मानमात्मस्थम् आत्मनैवामृषप्रभो बुद्ध्यानुमानगर्भिण्या वासुदेवानुचिन्तयाम् चोदितो विप्रवाक्येन न त्वां धक्षति तक्षकः मृत्यवोलोपधक्षन्ति मृत्यूनां मृत्युमीश्वरम् अहं ब्रह्म परं धाम ब्रह्माहं परमं पदम् एवं संप्रिक्षन्नात्मानम् आत्मन्याधाय निष्कलेम् सुन्दशान्तं दक्षतं पादे लेलिहानं विषाननये न दक्षसि शरीरं च विश्वं च पृथगात्मनः एतत्ते कथितं तात यथात्मा पृष्टवान् नृप हरेर्विश्वात्मनश्चेष्टां किं भूय श्रोतुमीक्षसि इति श्रीमद्भागवते महापुराणे पारमहंस्यां द्वादशस्कन्धे ब्रह्मोपदेशोनां पञ्चमोऽध्यायः